प्रथमं मुख्य ख्यवार्तान केन्द्रीय मन्त्रिणो रामविलास पासवानस्य पार्थिव शरीरं गतसायं पटनां प्रति नीतम् अद्य राजकीय सम्मान प्रस्सरं तस्य अन्त्येष्टिर्विधास्यता निर्वाचनायोग बिहारप्रदर्श भावि विधानसभा निर्वाचनावधौ आकाशवाणी द्रदर्शनाभ्यां नैर्वाचनिक प्रचारार्थं राजनैतिक दलेभ्यो निर्धारितः प्रसारणावधि द्विग्णीकृतः कोविड देशे कोविड ऊनविंशति महामारीतः स्वस्थीभूतानां जनानां प्रतिशतता प्रवर्ध्य सम्प्रति पञ्चाशीति दशमलव पञ्च द्विमिता संवृत्ताप्ति नोबेल शान्ति विश्व खाद्य कार्यक्रम संस्थायै विस्तरेणा राजपासन केन्द्रीयमन्त्रिणो रामविलास पासवानस्य पार्थिवशरीरं गतसायं पटनां प्रति नीतम् अद्य राजकीय सम्मान पुरस्सरं तदीया अत्यष्टिर्विधास्यत चत्स्सप्ततिवर्षीय श्रीपासवान परह्य नवदिल्ल्यां दिवंगत आसीत् लोकजनशक्ति पार्टीति दलस्य प्रतिष्ठापकः सम्प्रति च केन्द्रीय उपभोक्तृ विषय खाद्य सार्वजनिक वितरण मन्त्रित्वेन स्थितः श्रीपासवान चिराद रुग्ण आसीत् नातिचिरमेव च निजीय चिकित्सालये तदीय हृदयस्य शल्योपचार विहित आसीत अष्टवारं लोकसभाया सांसदत्वेन निर्वाचित गृहमन्त्रालयेन घोषितं यदद्य तदीयान्तिम संस्कारावधौ तत्सम्माने तद राष्ट्रिय ध्वज अर्धावनत स्थास्यति राष्ट्रपतिना प्रधानमन्त्रिणा गृहमन्त्रिणा विभिन्नै इतर गणमान्य सदस्यैश्च तदीयं निधनमभिलक्ष्य हार्दिकी शोक संवेदना निर्वाचनायोगेन बिहारप्रदेशे भावी विधानसभा निर्वाचनावधौ आकाशवाणी द्रदर्शनाभ्यां नैर्वाचनिक प्रचाराय राजनैतिक दलेभ्यो निर्धारितः प्रसारणावधि द्विग्णीकृतोऽस्ति आयोग स्पष्टमकरोत् यत् कोविड महामारी कारणात् जनानां पारस्परिकं निकट सम्पर्क विनैव नैर्वाचनिक प्रचारस्य प्रसारभारत्या समं परामर्शानन्तरं निर्णयमेन अग्रहीत् कोविड कोविड देशे कोविड् ऊनविंशति महामारीत स्वस्थीभूतानां जनानां प्रतिशतता प्रवर्ध्य सम्प्रति पंचाशीति दशमलव पञ्च द्वि मिता संवृत्तास्ता विगतास् चत्र्विशतिहोरास् संक्रमणादस्मात् अष्ट सप्तति सहस्र स्वास्थ्य मन्त्रालयो विज्ञापयति यद्यावधि दर्षष्टि लक्षाधिका जना संक्रमणाद् विमुक्ताोबेल एतद्वर्षीय नोबल नोबेल पुरस्कार विश्व खाद्य कार्यक्रम संस्थायै समर्पयिष्यता एतद्विषयिणी उद्घोषणा च गतदिवस नॉर्वे बैरिड एण्डरसन विहितास्ति तेन स्पष्टीकृतं यत् ते जगति कलह जर्जरितेष् क्षेत्रेष् बहुक्षाजन्यं मृत्युजातं विरुध्य श्लाघ्य संघर्षाय वैश्विक्या खाद्य सुरक्षाया प्रोत्साहनाय च इमं प्रतिष्ठिततमं पुरस्कारम् ऐषम एतत्संस्थायै प्रदात् निर्णीतम् इदानीं आकाशवाण्या कस्यचन विशिष्ट कार्यक्रमस्य विषये आवश्यकी सूचना संस्कृत जगत्सम्बद्धै विभिन्न क्रियाकलापै संवलित हृदयानां मनोविनोदकर विशिष्ट कार्यक्रम संस्कृत साप्ताहिकी सम्प्रति आकाशवाण्या एफ्एम् गोल्ड प्रवाहिकात प्रति शनिवासरं पूर्वाह विंशति कलोत्तर एकादश वादनात् प्रसारयिष्यता प्रसारणं तदग्रिम प्रति रविवासरपित तस्मिन्नेव काले श्रोतृभि करणरसायनीकर्त् शक्ष्यते इति वार्ता